अथा पञ्चमोऽध्यायः वैशंपायन उवाच ते वीरा बद्धनिस्त्रंशास्तथा बद्धकलापिनः बद्धगोलाङ्गुलित्राणाकालिन्दीमभितोययुः ततस्ते दक्षिणम् तीरमन्वगच्छन् पलादयः निवृत्तवनवासा हि स्वराष्ट्रम् प्रेप्सवस्तदा वसन्तो गिरिदुर्गेषु वनदुर्गेषु धन्विनः विध्यन्तो मृगजातानि महाबलाः उत्तरेण दशार्णांस्ते पञ्चालान् दक्षिणेन च अन्तरेण यकृल्लोमान् शूरसेनांश्च पाण्डवाः लुब्धा ब्रुवाणा मत्स्य प्राविशन्वनात् धन्विनो बद्धनिस्त्रंशा विवर्णा श्मश्रुधारिणः ततो जनपदम् प्राप्य कृष्णाराजानमब्रवीत् पश्यैकपद्यो दृश्यन्ते क्षेत्राणि विविधानि च व्यक्तम् दूरे विराटस्य राजधानी भविष्यति वसामिहा पराम् रात्रिं बलवान् मे परिश्रमः युधिष्ठिर उवाच धनञ्जयसमुद्यम्या पाञ्चालीं वह भारत राजधान्यां निवत्स्यामो विमुक्ताश्च वनादितः वैशम्पायन उवाच तामादायार्जुनस्तूर्णम् द्रौपदीं गजराढिवा सम्प्राप्य नगराभ्याशमवता रयदर्जुनः सराजधानीं सम्प्राप्य कौन्तेयोऽर्जुनमब्रवीत् क्वायुधानि समासज्ञाप्रवेक्ष्यामप्पुरं वयम् सायुधाश्च प्रवेक्ष्यामो वयम् तातपुरम् यदि समुद्वेगम् जनस्या स्याकरिष्यामो न